अथैकोन सप्ततितमः सर्गः ततो रात्र्याम् व्यतीतायाम् सोपाध्यायः स बान्धवः राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् व्रजन्त्वग्रेसु विहिता नाना रत्नसमन्विताः चतुरङ्गबलम् चापि निर्यातु सर्वशः ममाज्ञासमकालम् च यानम् युग्यमनुत्तमम् वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः मार्कण्डेयस्तु दीर्घायुरृषः कात्यायनस्तथा एते द्विजाः प्रयान्तग्रे स्यन्दनम् योजयस्व मे राजानवृषभिः सार्धम् व्रजन्तम् पृष्ठतोऽन्वयात् गत्वा चतुरहम् मार्गम् विदेहानभ्युपेयिवान् राजा च जनक श्रीमाञ्छुत्वा पूजामकल्पयत् ततो राजानमासाद्य वृद्धं दशरथम् नृपम् मुदितो जनको राजा प्रहर्षं परमञ उवाच वचनम् श्रेष्ठो नरः श्रेष्ठम् स्वागतम् तेन रश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव पुत्रयोर्भयोः प्रीतिम् लप्स्यसे वीर्य निर्जिता दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः सह सर्वैर्द्विजश्रेष्ठैर्देवैरिवशतक्रतुः दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम् राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः श्वः प्रभातेनरेन्द्रत्वम् संवर्तयितुमर्हसि यज्ञस्यान्ते नरश्रेष्ठविवाहमृषिसत्तमैः तस्य तद्वचनम् श्रुत्वा ऋषिमध्येन राधिपः वाक्यम् वाक्यविदाम् श्रेष्ठः प्रत्युवाचमहीपतिम् प्रतिग्रहोदातृवशः श्रुतमेतन्मया पुरा यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् तद्धर्मिष्ठम् यशस्यम् सत्यवादिनः श्रुत्वा विदेहाधिपतिः परम् विस्मयमागतः ततः सर्वे मुनिगणाः परस्परसमागमे हर्षेण महता युक्तास्ताम्रात्रिममवसं सुखम् अथ रामो लक्ष्मणेन समञ्जयौ विश्वामित्रम् पुरस्कृत्य पितुः पादावुपस्पृशन् राजा च रागवौ पुत्रौ निशाम्यपरिहर्षितः उवासपरमप्रीतो जनकेनाभिपूजितः महाते तत्ववित। जनकोप महातेज क्रियाधर्मेण तत्व रात्रिमुवास इशे श्रीमद्मा आदि का्यलकांडे एक सर्ग